अथ पञ्चनवत्यधिकशततमोऽध्यायः वैशम्पायन उवाच ततस्ते पाण्डवाः सर्वे पाञ्चाल्यश्च महायशाः प्रत्युत्थाय महात्मानम् कृष्णम् सर्वेभ्य वादयन् पूजाम् पृष्ट्वा कुशलमन्ततः आसने काञ्चने शुद्धे निशसादमहामनाः अनुज्ञातासु सर्वे कृष्णेनामि तेजसा आसनेषु महाथेषु निषेदुर्विपदाम्बराः रतो मुहूर्तान् मधुराम् वाणीमुच्चार्य पार्षतः पप्रच्छतम् महात्मानम् द्रौपद्यर्थम् विषाम्पते कथमेका बहूनाम् स्यात् धर्मपत्नी न शङ्करः एतन्मे भगवान् सर्वं प्रब्रवीतु यथा तथम् व्यास उवाच अस्मिन् धर्मेऽपि प्रलब्धे लोकवेदविरोधके यस्य यस्य मतम् यद्यच्छोतुमिच्छामि तस्य तत् त्रुपद उवाच अधर्मोऽयम् मम मतो विरुद्धो लोकवेदयोः न ह्येका विद्यते पत्नी बहूनाम् द्विजसत्तम न चाप्याचरितः पूर्वैरयम् धर्मो महात्मभिः न चाप्यधर्मो विद्वद्भिश्चरितव्यः कथञ्चन ततोऽहम् न करोम्येनम् व्यवसायम् क्रियाम् प्रति धर्मः सदैव सन्दिग्धः प्रतिभाति हि मे त्वयम् दृष्टद्युम् न उवाच यवीयसः कथम् भार्याम् ज्येष्ठो भ्रातापि दर्शभ ब्रह्मन् समभिवर्तेत संवृत्तः संस्तपोधन न धर्मस्य धर्म से सूक्ष्म गति कथन अधर्मो धर्म की व्यवसायो न शक्यते कर्मस्मद्धिब्रह्मस्तोम न व्यवस्थ्य से पंचा महिष्ण भवत्ति कथंजन